श्रीमद्भागवत् महापुराणम् एकादश स्कन्धं भगवान् के अवतारों का वर्णन राजोवाच यानि यानि ह कर्माणि यैर्यै स्वच्छन्दजन्मभिश्चक्रे करोति कर्ता वां हरिस्ताने ब्रुवन्तु द्रुमिलुवाच यो वा अनन्तस्य गुणानन्नन्ताननुक्रमिष्यन् सतु बालबुद्धे रजांशभूमेर्गणयेत्कथित्कालेन नैवाखिलशक्तिधाम्नः भूतैर्यदा पञ्चभिरात्मशिष्टैः पुरं विराजं विरचय्य तस्मिन् स्वांसेन विष्ट पुरुषाभिधानम् अवापनारायणे आदिदेवः यत्कायये स भूनत्रयसन्निवेशो यस्येन्द्रियैतनुभृतामुभयेन्द्रियाणि ज्ञानं शतस्वसनतो बलमोज इहा सत्वादिभिः स्थितिर्लयोद्भव आदिकर्ताम् आदा बभूक्षतधितेरजसास्य गुंसरगे विष्णो सितौ कृतपतेर्द्विजधर्मसेतुः रुद्रोऽप्ययाय पुरुषश आद्य इद्युद्भवस्थितिलयाः सततं प्रजाशो धर्मस्य दक्षद्वितर्यजरेष्ठमूर्त्यां नारायणो नऋषिप्रवर प्रशान्तः नैष्कर्मलक्षणमुवाचार कर्म योध्यापि चास्य ऋषिवर्य निषेविताङ्घ्रिः इन्द्रो विषक्य मम धाम जिगिक्षतीति कामं निरुक्तन्तगणं सपदर्युपाख्यं गत्वाप्सरोगणवसन्त सुमन्दपातैस्त्रिपेक्षणेषुभिर्वन्मन्महिज्ञः सक्राकृतमक्रममादिदेव प्राह प्रहस्यगत गतिभिस्मे एजमानान् मा भयष्टभो मदनमारुतदेव वध्यो गृहिणीत नो मलिमशून्यमिमं कुरुध्वम् इत्थं ब्रुवत्य भयते नरदेवदेवा सवीडनम्रशिरसगुणं तमूचुः नैतद्विभूतैपरे विकृते विचित्रं स्वारामधीरन्निकरा नतपादपद्मे ं सेवतां सुरकृता बहवोऽन्तराया श्वको विलङ्घ्य परमं व्रजतां पदं ते नाल्यस्य वर्षशुबलेन्ददत स्वभागान् धत्ते पदं त्वमविता यदि विघ्नमूर्ते क्षुद्रकालगुणमारुतजैवं जय्यसेष्णयान् अस्मान्पारजलधीनतिर्यके ते क्रोधस्य यान्ति विफलस्य वशं पदे गो मज्जन्ति दुश्चरतपश्च वृथो सृजन्ति इति प्रगृणितां तेषां श्रियोत्यद्भुतदर्शनाः दर्शयामास शुश्रूषां स्वर्चिता कुर्वतीर्भिभू ते देवानुचरा दृष्ट्वा श्रियश्रीरेवरूपिणी गन्धेन मुमुस्तासां रूपौदार्य हतश्रियः तानाः देवदेवे स प्रणतान् प्रहसन्निव आसामेकतमां ऋध्वं सवर्णां स्वर्गभूषणाम् ओमित्यादेशमादाय न त्वा तं सुरवन्दिनः उर्वशीमप्सरश्रेष्ठां पुरस्कृत्य दिवं ययौ इन्दाया नम्यसंसदसि सुमृतां त्रिदिवौकशाम् उचिर्नारायणबलं शक्रस्तत्रास विस्मितः हंसस्वरूप्यवददत्युतम् आत्मयोगं दत्तकुमारऋषभो भगवान्पितानां विष्णुशिवाय जगतां कलयावतेन तेनाशिता मधुमिदा गुप्तोऽप्यये मनुरिलौषदयश्च मात्ये क्रौडे हतो दितिज उद्धरम् उद्धरताम्भसमाम् कौर्मेधितो दृढमिमृतोन्मथनेष्वपृष्ठे ग्राहा प्रपन्नमीम्भराजमुञ्चदार्तम् संसृन्नतोऽब्धि पतिताश्रमणालिंश्च शक्रं च विद्रवधत तमसि प्रविष्टम् देवस्त्रियोसुरगृहेऽपि हिताय पिहतायनाथा, जग्नेसुरेन्द्रमभयाय सतां नृसिंहे देवासुरे यदि चिदैत्यपतिं सुरार्थे हत्वान्तरे सुभुवनान्यदधात् कलाभिः भुद्वाथ वा मन्दिमां हरद्बलेख्वां याञ्चाच्छलेन समदादति ते सुतेभ्य नेच्छत् यामकृतगां च त्रिसप्तकृत्वो रामस्तु है हैकुलाभ्यभार्गवाग्नि सोब्धिं दबन्धदशवक्त्रमहानशलङ्कं सीतापतिर्यति लोकमलङ्घकीर्तिः भोवेर्भारावतारणाय यद् स्वजन्मा जातकरिष्यति सुरैरपि दुष्कराणि वादैर्विमोहयति यज्ञकृतो तदर्हन् सद्रान् कलौचितभुजो निहनिष्यदन्ते एवंविधानि कर्माणि जन्मानि च जगत्पते भूरिणि भूरि य महाभुज ते श्रीमद्भागुते महापुराणे पारमहंसां सहितायाम् एकादश स्कन्धे चतुर्थोऽध्यायः